मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायम् नयन् योगभ्रष्टचरितनिरूपणम् श्रीगणेशाय नमः दक्ष उवाच योगशान्तिं समाश्रित्य योगमभ्यस्य नित्यदा ब्रह्मणि ब्रह्मभूतः स योगभ्रष्टः कथम् भवेद् मायामयं जगत्सर्वं नानाभ्रमसमन्वितं ज्ञात्वा स्वयं पुनर्भ्रष्टकौतुकं वदमे मुने मुद्गल उवाच ब्रह्मणि ब्रह्मभूदस्य योगिनो बिम्बसंस्थितं बुद्धौ तस्यां विमोहेन मोहयुक्तं प्रजापदे दृष्ट्वा नानाविधान् भोगान्स्वयं मोहेन ना मोहितः तेषु भूत्वा रसयुतो तानिच्छति निरन्तरं तत्र तस्य हृदि दक्षविवेकसंस्थितो भवेद् तस्य रूपं प्रवक्ष्यामि शृणु बुद्धिविशारद अहं ब्रह्मणि योगेन भूदो न संशयः पापपुण्याधिगम्येन शुभाशुभकृते भवेद् यदा भोगं परित्यज्य तिष्ठामि नित्यमादरात् तदा योगस्य वृद्धिर्मे न भविष्यति निश्चितं यदा नित्यं प्रभुञ्जाने भोगान्नाविधान् परान् पाप पुण्यमनादृत्य तदा योगक्षयो न च अदोऽहं योगमृत्सृज्य किमर्थं दुःख संयुधः तिष्ठामि शान्तिमाश्रित्य विधिनिषेधसंयुधः एवं मनसि सन्धार्य योगीभोगेषु लालसः विविधेष्वेव भवति रसयुक्तक्रमेण सह अयं मोहसमाख्यातो योगिहृद्भ्रान्तिदायकः तेन शान्तिं परित्यज्य पापपुण्यपरो भवेत् ततः कामं समाश्रित्य देहसौख्यप्रदायकम् इच्छेत् स विविधान् भोगान् पुण्यपापपरायणः भोगार्थं यदमानस्य योगिनः क्रमभावदः तत्र विघ्नकृधेन तथ क्रोधयुतो येन विघ्नकृतस्तेषु भोगेषु तस्य भोगिनः तं शत्रुं स हिजानादिभिन्नभावपरायणः तदोह्यज्ञानसम्भूदि क्रमेणोत्पद्यते परा योगिनश्च तया युक्तो हन्तुं तं यतते सदा शत्रुशिक्षार्थ मर्थान् स नानाभावसमन्वितः सम्पाद्य तं तु निर्जित्य भोगान् भुङ्े प्रयत्नदः स्वपरज्ञानहीनत्वं गतं तस्य प्रजापदे तदेवाज्ञानसम्भूदिशत्रुमित्रप्रदर्शिनी ततः शान्धे क्रमेणास्य विस्मृतिर्जायते परा तया युदस्वयं स्वयं देहं मन्यदे सत्यरूपकं देहे सन्तोषमापन्ने कृतकृत्यमिव स्थितं मन्यदे विपरीदेश आत्मानं भाग्यवर्जितम् तदो योगं परित्यज्य स्वयं बिम्बी प्रजायते बिम्बे तन्मयभावेनागमिष्यति न संशयः एवं क्रमेण योगी स शान्तिहीनस्वभावदः सदा तिष्ठदितं योगं नाश्रयदे कदाचना सुखयुक्ते शरीरे सुखयुक्तो भवेत् स्वयं दुःखयुक्ते तथा भाव नानाभावपरायणः लेशमात्रमयं शान्दिम् लभदेन कदाचन असन्तोषयुतो नित्यं भ्रमदे भोगलिप्सया भोगार्थं विविधान्येव वी नित्यं पापानि चादराद चरदे सर्वपुण्यानि विधिनिषेधवर्जितः वर्णाश्रमयुधो वर योगी स्वधर्मं त्यज्य नित्यदा पापं चरदि वा पुण्यं स्वधर्मः कदा योगान् भुङ्गे विशेषेण मोहयुक्तो निरन्तरं योगभ्रष्टोऽयमाख्यादस्त्यक्त्वा योगं नरो भवेद् विवेकश्च सदा तिष्ठति ब्रह्मैव ब्रह्मभावितः अन्देश नरकान् गच्छेद्वन्द्वदुःखप्रदायकान् यादनां खोररूपान् तु पदेद्भुक्त्वा धरातले। दक्ष उवाच योगभ्रष्टगतिं ब्रूहि योगीन्द्रदयया परं कथं नरकगो भूत्वा यादनाम् प्राप्नुयात् परम् कर्मफलपरित्यागादिह जन्मधरः कथं सम्भवेद्विस्मयोभादिचेष्टितं योगिनः परं मुद्गल उवाच ब्रह्मणि ब्रह्मभूतस्य पुनर्विषयसेवनाद ब्रह्मणो भक्तिहीनस्यान्धे स्थानं न भवेत् अपारपुण्ययोगेन ब्रह्मणि देहि नः कदा रसोत्पत्तिर्भवद्दक्ष सर्वश्रेष्ठस्य योगदा देहविषयसंयोगाद्वन्द्वभावपरात्मनः नानापापादियोगेन पुण्यं स्वल्पं प्रहीयते मृतोऽयं शिवलोके वै वैकुण्ठे सौरशाक्तयोः ब्रह्मण इन्द्रलोके वा पते दन्देन संशयः शोकहर्षप्रदम् विश्वं नानाद्वन्द्वसमन्वितं नरको नास्त्र सन्देहो योगिनां शास्त्रसम्मतम् उत्पत्तिनाशसंयुक्तं त्यक्त्वा ब्रह्मपरायणः ब्रह्मणि ब्रह्मभूतः स पुनर्द्वन्द्वपरो यतः विकुण्डादिपदे संस्थो द्वन्द्वं भुङ्कृते निरन्तरम् उत्पत्तिनाशः संयुक्तं नानाभोगपरायणः अधो योगी प्रजानाधस्वर्गाख्यान्नरकान् परान् भुक्त्वा द्वन्द्वमयान् जन्मधरो भवत भवेद्योगी कुले तस्य जन्म तापसे कुले रुद्धिमतां स सतत्रापि पुनर्योगं चरिश्यति पूर्वसंस्कारयोगेन न भोगे स रमेत्कदा चित्तं तस्य महायोगी प्रभवेत् स्वल्पयोगतः पुनर्नयोगभ्रष्टः सम्भवेत् ब्रह्मणः सुत शान्त्यायुक्तस्वभावेन शरीरम् पोषयेन्मुदा अन्दे ब्रह्मणि योगी तदाकारो भवेत् परं योगसंस्कारपुण्ये न स्थितिं लब्ध्वा महामतिः ये पूर्णं योगभ्रष्टस्य चेष्टितं किं पुनः श्रोतुमिच्छादे वदधादर्वदाम्यहम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे योगभ्रष्टचरितनिरूपणं नाम अष्टमोऽध्यायः इति योगगीतासूपनिषत्सु सुगमासु चतुर्थोऽध्यायः ओम्